श्रीहरये नमः त्र्यशीतितमोऽध्यायः श्रीशुक उवाच तदानुगृह्य भगवान् गोपीनां स गुरुर्गतिः युधिष्ठिरमतापृच्छत् सर्वांश्च सुहृदो व्ययम् त एवं लोकना सुसत्कृताः परिपृष्टास्तु सत्कृताः प्रत्युचूर्हृष्टमनस तत्पादेशाहतां हसः कुतो शिवम् त्वच्चरणाम्बुजासवम् महन्मनस्तोमुकनिःसृतम् क्वचित् पिबन्ति ये कर्णपुटैरलं प्रभो देहम्भृतां देहकृदस्मृतिश्चिधं हित्वात्मधाम विदुधात्म कृतत्रयवस्तम् आनन्दसंप्लवम् अकण्ठमकुण्ठभूतं कालोपसृष्टनिगमा वन आत्तयोग मायाकृतिं परमहंस गतिं नतास्म ऋषिरुवाच इत्युत्तमश्लोकशिखामणिं जनेषु अभिष्टवत्स्वन्दतकौरवस्त्रियः समेत्य गोविन्दकथामितो गृणं श्रीलोकगीताश्रुणु वर्णयामि द्रौपदुवाच हे वै दर्प्यच्युथो भद्रे हे जावती कौशले हे सत्यभामे सत्यंदे श्योहिणील हे कृष्णपत्ए तो भ्रूतवो भगवान्स्वय उपएमे योकमुकुवस्व मयया रुक्मिण्युवाच चैत्याय मार्पयितुम् उद्यत कार्मुकेषु राजस्व जेय भटसेकरिधाङ्कृरेणुः सत्यभामोवाच व्यो मे सनाभिवध वधतप्त गृहधात तेन लिप्धा बि सापमपमाष्टुमुपाजहार जित्वर्षराजमतरत्नमदात्सतेन भीतः पिता दिशतमां प्रभवेऽपि दत्ता जाम्भवत्युवाच प्रज्ञाय देहकृत् अमुं निजनात देवं सीतापतिं तृणवहान्यमुनाभ्ययुध्य ज्ञात्वा परीक्षित उपाहरतर्हणं मां पादौ प्रगृह्यमणिनाहममुष्यदासे कालिन्त्युवाच <laughs> <laughs> <laughs> <laughs> तपश्चरन्तीमाज्ञाय स्वपादस्पर्शनाशया सख्योपेद्याग्रहीत्पाणिं योऽहं तत् गृहमार्जनी मित्रविन्थोवाच यो मां स्वयंवरमुपेत्य विजित्य भूमान् आत्मबलिं द्विपरिहे भ्रातृंश्च मेऽपकुरुतः स्वपुरं श्रियौख तस्यास्तु सत्योवाच सप्दोष नोति भलवीर्य सुतीक्ष्ण शृङ्गान् पित्रा तान् वीरधुर्मतः नस्तरसा निगृह्य क्रीडन् बभन्तः जदोकान् ययित्तं वीर्यशुल्कां मां दासीभिश्चतुरङ्गिणीं निन्ये तत् भतृवच पितामहे मातुलेयाय स्वयम् आहूय दत्तवान् कृष्णे कृष्णाय तच्चित्तामक्षौहिण्यासखी जनैः अस्य मे पादसंस्पर्शो भवेज्जन्मनि जन्मनि कर्मभिर्भ्राम्यमाणाय येन तच्छ्रेय आत्मनः लक्ष्मणोवाच ममापि राज्ञश्च्युतजन्मकर्म श्रुत्वा मुहोर्नारथगीतमासहा चित्तं मुगुन्ते किल पद्महस्तया विहाय लोहपान् ज्ञात्वा मम मतं साद्विपिता बृहत् सेनयितिख्यातस्तत्रोपायमचीकरत् यतास्वयं वरे राज्ञिमत्स्यपार्थेऽप्यसा कृतः अयं तु बगिरा चन् दृशयते स जले सर्वतो भूमा आययुर्मत्पितुः पुरम् सर्वास्त्रशस्त्रतत्त्वज्ञा शोभात्याया सहस्रसः पित्रा सम्पूजिता सर्वे यथा वीर्यं यथा वयः आधतुः ससरं चापं वेदुं पर्षदि मध्यः आधायव्यसृजन् केचित् सज्जं कर्तुमनीश्वराः आकोटिजां समुत्कृष्य पेतुरेकमुना हताः सज्जं कृत्वा परे वीरामागधाम्बष्टचेधिपाः भीमो दुर्योधनकर्णा ना विन्दस्तधवस्थितिं मत्स्याभासं जले वीक्ष्य ज्ञात्वा च तदवस्थितिं पार्थो यत्तो सृजत् बाणं नाचिनत्पश्रुषे परं राजन्येषु निवृत्तेषु भग्नमानेषु माणिषु भगवान् धनुराधाय सज्जं कृत्वा तली तस्मिन् सन्धाय विसिकं मत्स्यं वीक्ष सकृज्ज्वले चित्त्वे शपातयत् सूर्ये चाभिजिति स्थिते दिवि दुन्तु भयो नेधोर्जय सब्धयुता भुवि देवाश्च कुसुमासारान्मुचुर्हश्च विह्वलाः तद्रङ्गं नाविसमघं कलनूपुराभ्यां पद्भ्यां प्रगृह्य कनगजोज्ज्वलरत्नमालां नूत्ने निवीय परिधाय च कौसिकाग्र्ये सौव्रीडहास वदना उन्नीय वक्त्रं वुरुकुन्तलकुण्डलद्वेट् घण्टस्थलं शिशिरहासकटाक्षमोक्षैहे राज्ञो निरीक्ष परितःसनकैर्मुरारेः अंसेनो रक्तहृदया निदते स्वमालां निनेदुर्नटनर्तक्यो नन्तृतोर्गायका जगुहो एवं वृथे भगवती मयसे नृपयूतपाः न से हिरेयाज्ञसेनिस्पर्धन्तो कृश्च यातुराः मां हयरत्नचतुष्टयं चतुष्टयम् य सन्दनन्दस्त वाजौ चतुर्भुजः दारुगश्चोदयामास काञ्चनोपस्करं रथं मिषदाम्बुभुजां राज्ञे मृगाणां मृगराटिव तेन्वस् जन्तरा जन्यानिषेद्धुम् पति केचन संयत्ता तेषार्गच्छुतभाणौघै ते कृत् भाक्वङ्घ्रिकन्धराः निपेतुः प्रधने केचिदेगे सन्त्यज्यदुद्रुवुः ततः यदुपति यदुपथि अत्यलङ्कृतां रविच्छ ध्वज पठित्रतोरणां कुशस्थलीं दिवि भुवि चाभिसंस्तुतां सामभि दासिभिः बठे भरतवाजिभिः आयुधानि महार्हाणि दधौ पूर्णस्य भक्तितः आत्मा रामस्य तस्येम वयं वै गृहदासिकाः सर्वसङ्गनिवृत्याद्धा तपसा च बभूवि मां महिष्यवूचू भौमं निहत्य सगणं युतिते न रुद्धा ज्ञात्वा तनश्शितिजये जितराजकन्याः निर्मुच्य संश्रुतिविमोक्षम् अनुस्मरन्ति पादाम्बुजं परिणिनाययय आत्मकामः नवयं वयं साध्विसाम्राज्यं स्वाराज्यं भौज्यमप्युथ वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेपदं कामयामहये तस्य श्रीमत्पादरच श्रियः कुचकुङ्कुमगन्धाट्यं मूर्ध्ना वोटुं गताभृतः व्रजस्त्रियो यत् वाञ्चन्ती पुलिन्त्यस्तृणभीरुदः गावश्चारयतो गोपादस्पर्शं महात्मनः इति श्रीमद्भागवते महापुराणे दशमस्कन्ते उत्तरार्दे त्रयशीतितमोऽध्यायः सर्वत्र गोपिकजीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनाथमहाराज की जय